हरि ओं श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवत महापुराणे तृतीयस्कन्धे अष्टादशोध्यायः व्यास उवाच श्रु स्वा तद्वचनं चाम प्रेमयुक्ता बभूवः प्रतस्थे ब्राह्मणस्तस्मात् स्थानाद्माहितः स तु पूर्वानुरागास्वै मग्ना प्रेम्णाति कामबाणः सेवासगते तस्मिन् अतः कामार्जिताप्राय सखीं छन्दोनुवर्तिनीं विकारश्च समुत्पन्नो देहेयश्रवणादनुज्ञातरसविज्ञानं दिध्या... कुमारं कुलसम्भवं दुनोकीं मदनपाप किं करोमि क्वयामि च स्वप्नेषु वामया दृष्ट पञ्चबाण इवापर मे मनोत्यर्थं विराहकुलित चन्दनं देहलग्नं विषवद् चन्दनं देहलग्नं मे विषवद्वामिनि स्तृगीयं सर्ववच्च चन्द्रपादा च न चार्मे वेशं मे न पर्वते न दिवा न निशायां वा न सुखं सुखसाधने न शय्या न च ताम्बूलम् न गीतं न च वादनम् प्रीणयन्ति मनोमेध्य न तृप्ते ममलोचने, लोचने प्रयाम्यद्येव ने तत्र यत्रासो वर्तते षठ भीतात्मैकुलज्जाय परतन्त्रापितु तथा स्वयंवरं पितामेद्य न करोति करोमि किं तस्यामि राजपुत्राय कामं सुदर्शनाय वै सत्यन्येपुत्र विपालाशदश संमृतार्धयः रमणीया न वेतेद्य राजहीनोऽप्यसौमतः व्यास उवाच एक बलहन सुदर्शन वनवासी फलाहर, फलाहार तैचित जप सिप्युपस्थित सोपी जानपुर छंदम जया मंत्रोत्तम स्वप्ने पश्य शो देवी विष्णु मैम खंडिता सर्वसम्पत्कराम्बिकाम् शृङ्गभेरपुराध्यक्षो निशास्करसंयुतम् चतुर्भिम् पथावरमण्डितम् जैत्रं राजसुतं ज्ञात्वा दत्तो ददौ चोपायनम् तदा स्वी जगरा सम्प्रीत्या मित्रत्वेन सुसंस्थितम् वन्दे मूलफले सम्यक् अर्चया मास शम्बरम् कृतातिथ्ये गते तस्मिन् निषादाधिपतो तदा मनय प्रीतियुक्तास्ते सम्मुचु तापसामिथ राजपुत्र ध्रुवं राज्यं प्राप्स्यासि त्वं च सर्वथा स्वल्पोभिरव्यग्रेतापान्नात्र संचये प्रसन्ना तेऽम्बिका वरः विश्वमोहिनी सहायस्तु सम्पन्नो न चिन्तां पुरुषो व्रत मनोरमाम् तथोचुस्ते मुनय्य संशितव्रता पुत्रस्य धराधीशो भविष्यति सुचिस्मिते सा तान्वाच तन्वङ्गी वचनम् सत्फलम् दातोऽयम् भवता विप्रा किं चित्रं सदुपासनात् न सहाय च कश्चन केन योगेन पुत्रो मे राज्यम् प्राप्तुम् अर्हति आशीर्वादय च भो नो पुत्रो न पुत्रोऽयं मे महीपति भविष्यति न सन्देहो भवन्तो मन्त्रवित्तमा व्यास उवाच रथारूढ समेधावी यत्र याति सुदर्शन अक्षोहिणी समावृत्य युवा भाति सतीयसा प्रतापो मंत्रबीजस्य, नन्द्य भूपते एवं वैजपतस्तस्य प्रीतियुक्तस्य सर्वथा सम्प्राप्य सद्गुरोर्बीजम् कामराजाख्यमद्भुतं जपेद्यस्तु शेषान्तं सर्वान् कामान् वाप्नुयात् न तदस्थी पृथिव्यां वापि सुदुर्लभम् प्रसन्नाय शिवाय च यदप्राप्यं न मन्दाते दुर्भाग्या रोगै ते समद्भिद्रुता येषां चित्तेन विश्वासो भवेदम्बाचनादिषु या माता सर्वदेवानां युगा दोह परिकेतिता आदिमातेति विख्याता नाम्ना तेन ना कुरुद्वः बुद्धिः केचिदपि लक्ष्मी शक्ति श्रद्धा मति स्मृति सर्वेषां प्राणे सा वै प्रत्यक्षं विभासते न जानन्ति नरायै वै मोहिता मायखिल न भजन्ति कुतर्कज्ञा देवीं विश्वेश्वरीं च ब्रह्मा विष्णु तथा शम्भु वासवो वरुणोयमहे वा योगनिकुबेर च त्वश्विनो भग आदित्या वसवो रुद्रा विश्वे देवा मरुद्गुणः सर्वे ध्यायन्ति तां देवीम् सुष्टि स्थिच्छन्तकारिणीम् कोनसैवेत विद्वान्वैताम् शक्तिम् परमात्मिकाम् सुदर्शनेन सा ज्ञाता देवी सर्वा सदा शिव ब्रह्मैव साति दुष्प्राप्या विद्या विद्यास्वरूपिणी योगगम्या पराशक्ति ममुक्षूणां च वल्लभा परमात्मन स्वरूपम् को वेतु ता विना या सृष्टिम् त्रिविधाम् कृत्वा दर्शयत्य अखिलात्मरे सुदर्शनस्तु ताम् देवीम् मनतः परिचिन्तयन् राजलाभा परम् प्राप्य सुखम् वै कारणे सापि चन्द्रकलात्यर्थम् कामबाण प्रपीडिता नानुपचार्यनिशम् ददा दुःखितम् वपु तस्यापि राज्ञात कन्यां पुत्र राज्ञां विवाह योग्यो वै नान्येषां कथित किले इच्छा स्वयं वरश्चैको द्वितीयश्च पणाभिध यथा रामेण भग्नं वै तम्बकस्य शरासनम् तृतीयशौर्यशुल्कश्च शूराणां परिकीर्तितः इच्छा स्वयंवरम् तत्र चकारीभिः कारिता मञ्चा शुभै तरणयुता ततश्च विविधाकारा सुकृप्ता सभ्यमण्डपः एवं कृतेति संभारे विवाहार्थवित्तरे सखी शरीकलाहे दुखिता चारोचना चौमृते ध्रुवसंधिशुभ नान्यं बरीचाई तमृते वै सुदर्शन सर्तासुत भगवत प्रतिष्ठ व्यास उचितुक्ता सा सखी गा सरा वैदर्भीं विजने वाक्यं मधुरं मञ्जुभाषिणे पुत्री ते दुःखिता प्राहे सध्वीतां मन्मुखेन यत् शृणुत्वं कुरुकल्याणि तद्धितं त्वरिताधुना भारद्वाजा पुण्ये ध्रुवसन्धितो समे भक्ता नान्यं भूपं वरुणं गहं राजी तद्वनम शुवा पतो गृहमागते निदयाम सदा वाक्यं युवा वचनम राजा विस्म प्रसन्नु भ्यावाच वैदर्भात वचह सुब्रोजा बालो सु राजा तो राजा निष्का वने एक सै वसते वने तत्कृते नियतो राजो वीरसेनो युधाजिता स कथम् निर्धनो भर्ता योग्यस्याच्चारुलोचने ब्रूहि पुत्रीम् तदौ वाक्यम् कदाचिदपि विप्रियम् आगमिष्यन्ति राजा नास्थितिमन्तः स्वयंवरे इति श्रीमद्देवी भगवते महापुराणे तादृशशाद्याम् संहितायाम् तृतीयस्कन्धे शीकरया मातरम् प्रति सन्देशपेक्षणम् नामाष्ट अष्टादशोऽध्याय श्रीजगदम्बिकायार्पणमस्तु